अथर्ग्वेदे षष्ठाष्टके अष्टमोऽध्यायः ओ सोमः पुरा अर्षति सहस्रधारो अत्यविह। वायोरिन्द्रस्य निष्कृतम् पवमानमवस्य को विप्रमभिप्रगायत सुष्वाणम् देववीतये पवन्ते सो पाजसातये सोमाः सहस्रपाचसः ृणानादेव वीतये उत नो वाजसातये पवस्प बृहतीरिषाः द्युमजिन्दो सुवीर्यम् तेन सहस्रिणम् रयिम् पवन्ता वा सुवीर्यम् सुमानादेवास इन्दवः अरत्या आहियानानहेतृभिरसृग्रम् वाजसातये विवारमं यमाशवाः श्रा अर्षन्तीन्दवोभिमत्सन्न धेनवाः दधन् बिरेगुहस्त्योः दुष्ट इन्द्रा अयमत्सरः पवमानकनिक्रदत तिष्वा अपद्भिषो ओजहि अपघ्नन्तो अराणः पवमानाः स्वरदृशाः यो नाृतस्य सीदता परिप्रादिष्य तत्कविः सिन्धो गिराय देशबन्धवः पञ्चौराता अपश्यवाः परिष्कृन्ति धनुर्नसिम् आदस्य शुष्मिनो रसे विश्वे ए देवा अमत्सत यदे गोभिर्वसायते निरिणानो विधावतिजहच्छर्याः अणितान्वा अत्रासञ्जिघ्रते युजा नात्येऽभिर्यो विवस्पतः शुभ्रो नमाः मृजे युवाः गाः कृो न निर्णिजम् अतिश्रितिरश्चता गौव्यादिगात्यण्याः मग्नमियर्तियम् विदे अभिक्षिपः समग्वदमर्जयन्ते ऋषस्पतिम् पृष्ठा गृभ्रतवादिनाः परिदिव्यानि मर्मृषद्विश्वानि सोमपार्थिवा वसोदियाह्यस्मयोः एष धियात्यण्याशो गच्छन्निन्द्रस्य निष्कृतम् एष पुरोधि बृहते देवता आसये यत्रामता आस आसते एष हितो विनीयतेऽन्तः पथा यती तुञ्जन्ति पूर्णयः एष शृङ्गा आडितो सुवच्छिषे ज्योत्सो वृषा नम्णा दधा न ओचसा एष रुक्मिभिरीयते वाजीशुभ्रेभिरंशुभिः पतिः सिन्धो नाम्भवन् एष वशो निबिब्धनापरुषाय जीवाम् अति अपशादेषु शुगच्छते एतम् मृजन् विमर्जमुपद्रोणेष्वायवाः प्रतक्राणम् महीर्षाः एतमुत्यन्तचक्षिपो मृजन्ति सप्तभीतयाः स्वायुधम् अधिन्तमम् प्रते सोतार ओण्यो ओरसंवदाय जघृष्पजे सर्गो न पक्येतशः प्रत्वादक्षस्य रथ्यमपोपसा नमन्धसा गोषामन्वेषु दश्चिम अनक्तमप्सु दुष्टरं पुनीहीन्द्राय आयपातवे प्रपुरानस्य चेतसा सोमः पवित्रे ए अर्षति क्रत्वा आसधस्थमासदत् प्रत्वा नमो अभिरिन्दव इन्द्रसोमा आ असृक्षत महेभरा आयकारिणाः पुना रूपे अव्यये विश्वा अर्षन्नभिश्रियाः शूरो न गोषु तिष्ठति दिवो न ृथा आ पवित्रे अर्षति त्वं सो अमविपश्चितं तना पुनान आयुषो वसे वसि प्रणिम्नेनेन्धवो घ्रन्तो अवृत्राणि पूर्णयः सोमा असुग्रमाशवाः अभि सुमानास इन्दवो वृष्टयः पृथिवीमिव इन्द्रम् सोमासो अक्षरन्न पत्योर्मिर्मत्सरोमरः सोमः पवित्रे अर्षति विघ्नम् रक्षा अंसि देवयोः आकलशे सुवति पवित्रे परिषिच्यते उक्तैर्यज्ञेषु वर्धते अदित्रीसोमरोचनारोहन्नभ्राजसे दिवम् इष्टन् सूर्यन्न चोदयः अभिविप्रा अनुषतमूर्धन्यज्ञस्य कारवाः दधा आनाश्चक्षसि प्रियम् तमुत्वा वाजिनरो देभिर्विप्रा अवश्यवाः व्रजन्ति देवता आदये मधोर्धा रामनुक्षरतीव्रः सधस्थमासदः चारुर्हृताय पीतदे परिसुभानो गिरिष्ठाः पवित्रे सोमो अक्षाः मदे एषु सर्वथा असि त्वं विप्रस्तविर्मधुप्रजातमन्दसः मदे एषु सर्वथा असि तव विश्वे एषजोषसो देवासः प्रीतिमा आशत मदे एषु सर्वथा असि आयो विश्वा अनिवार्यावसो निहस्तयोर्धते मदे एषु सर्वथा असि ययि मे रोदसी महि संमातरे एव दोहते मदे एषु सर्वधा असि पर्यो रोदसे उभे सद्यो वाजे एभिरर्षति मदे एषु सर्वधा असि स शुष्मि कलशेष्व पुनानो अचिक्रदत् मदे एषु सर्वधा असि यत्सो ओमचि प्रमुख्यन् दिव्यम् पार्थिवम्बसो तन्नः पुनान आभर युवम् ह्यस्थस्वर्पते इन्द्रश्च सोमगोपतीशानापितम् कृषा आपुनान आयुषस्तनयन्नधिबर्हिषि हरिः सन्न्यो निमासदत् अवा आवशन्तधीतयो वृषभस्याधिरेतसि सोनोर्वत्सस्य मातराः कुपिद्वृषण्यन्तेभ्यः पुनानो गर्भमादरत् या शुक्रन्दुहते पयाः उपशिक्षापतस्थुषोभियसमाधे शत्रुषो पवमानविदारयिम् त्रो असोमवृष्ण्यन्नि सुष्मन्निवयस्थिर दूरे वा आसतो अन्तिवा प्रकविर्देवमीतयेभ्यो वारेऽभिरर्षति साह्वान्विश्वा अभिस्पृताः स हिष्माजऋतुभ्या वाजङ्गोमन्तमिन्वति पवमानः सहस्रिणम् परिविश्वा अविचेतसा मृशसे अभ्यर्ष बृहद्यशो मघवद्भ्यो ध्रुवम् रयिम् इषम् स्तोतृभ्याभर त्वम् राजेवसु रतो गिरः सोमा विवेशिथ पुरा नो वह्ने अद्भुत स वह्निरत्सु दुष्टरो मृज्यमानो गभस्त्योः सोमश्चमूषु दधः स्तोत्रे सुवीर्यम् एते धावन्तेन्दवः सो मा इन्द्रायघृष्पयः मत्सरासस्पर्विदाः प्रवृण्वन्तो अभियुजः सुश्वरे परिमोविदाः स्वयम् स्तोत्रे वयस्कृताः वृथा क्रीडन्त इन्दवः सिन्धो रूर्मा व्यक्षरन् एते विश्वा अनिवार्या पवमाना स आशत हितान न सप्तयो रथे आस्मिन् विषङ्गमिन्द बोध आता वेन मादिशे हे यो अस्मभ्यमरा आभा प्रभुर्नरच्छन्न वन्दधा आताकेतमादिशे हे शुक्राःपवद्भमर्णसा एतये अवीव शङ्काष्ठा अम्बाजिनो अक्रत सतः प्रासा एते सोमा आस आशपोरथा आ इव प्रवादिनाः सर्गाः सृष्टा एते वाता आ इवो रवः पर्जन्यस्येव भृष्टयाः अग्नेरिव एते पूता वि पश्चितः सोमा आसो एते मृष्टा अमर्त्या सुवांसो नशश्रमुः पथो रजाः एते पृष्ठा निरोदसोऽर्विप्रयन्तो व्या आनशुः उतेनमुत्तमम् रजाः त्वन्तुम् तन् बाणमुत्तममनुप्रवत आशत उतेदमुत्तमा इयम् त्वं सो सोमा असृग्रमाश वोमधोर्मरस्य धारया अभिविश्वा निकाव्या अनुप्रत्नास आयवः पदन्नो अक्रमुः रुतेजनन्तसूर्यम् आपवमाननो भरार्यो अदाशुशोगयम् कृप्रजापतीरिशाः अभि सोमाः अभिकोशम् मधुश्च्युतम् सोमो अर्षति तरणसिर्दधान इन्द्रियम् रसम् सुवीरो अभिषस्तिपाः इन्द्रायसो मपोसे देवेभ्यः स धमाद्याः इन्दो वाजम् सिशाससे अस्य पित्वा मदानामिन्द्रो वृत्राण्यप्रति जघान जघनच्छनो प्रसोमा आसो अधन्विष पवमानास इन्दवः श्रीणाना अप्सु मृञ्जत अभिगावोऽषावो न प्रवता आयतेः पुराणा इन्द्रमाशत प्रपवमानधन्मस्सोमेन्द्राय पातवे दृढर्यतो विनीयसे स्थिर्यो अनुमाद्याः इन्दो यद्रिभिः सुतः पवित्रम् परिधावसि अरविन्द्रस्य धाम्ने पवस्ववृत्रहन्तमोक्षेभिरनुमाद्याः शुचिः पावको अद्भुतः शुचिः पावक उच्यते सोमः सुतस्य मध्वाः देवा वीरघशंसः पपस्पदक्षसाधनो देवेभ्यः एहरे मरुद्भ्यो अवायवेपदाः पवमानधियाहितोऽभियो कृदत् धर्मणा वायुमाविश सन्देवैश्वभते कृशा कविर्यो नापरिप्रियः वृत्रहा दे एवमः विश्वारूपाण्या आविशम् पुरानो यातिहर्यतः यत्रामृता आस आसते अरुषो जनयङ्गिरः सोमःपवत आयुष इन्द्रम् गच्छन् कविक्रतुः आपवस्त्वमदिन्दमपवित्रम् धारया कवे अर्कस्य योनिमासदम् तममृक्षन्तभाजिनमुपस्थे अरितेरति विप्रा आसो अण्या आधिया तङ्गावो अभ्यनोषतसहस्वधा रमक्षितम् इन्दुम् नर्ता रमादिवः म् वेधाम् मेधया ह्यन् पवमानमधिव्यमे धर्मसिम् भूरिधायसम् तमह्यन्भुरिदोर्धियासंवसानम् विवस्वतः पतिम् वाचो अदाभ्यम् तम् सानावधिजामयो हरिम् हिन्वन्त्यद्रिभिः हर्यतम् भूरिचक्षसम् तन्ता हिन्वन्ति वेधसः पवमानगिरावृधम् इन्दमिन्द्रायमत्सरम् एष कविरभिष्टुतः पवित्रे अधितोषते पुनानोऽन्नपस्रिधाः एष इन्द्रायवायवे स्वर्जित्परिषिच्यते पवित्रे एदक्षसाधनः एष नृगर्विणीयसे दिवो मूर्धा वृषा आसुतः सोमो वने एषु विश्ववित् एष गव्युरचिक्रदत्तवमानो हिरण्ययोः इन्दुः एष सूर्येण नहासते पवमानो अधिद्यपि पवित्रे एव मदाः एष्य शिष्य तन्तरिक्षे विषाहरीः पुरा न इन्दुरिन्द्रमा एष बाजी हितोभिर्विश्वविन्मनसस्पतीः अव्यो बारम्भिधापति एष पवित्रे अक्षरत्सोमो देवेभ्यः सुतः विश्वाधामान्याविशन् एष देवः शुभायते वृत्रहा देहे पवीतमः एष मृषाकनिकृतद्दशभिर्जाभिभिर्य अभिद्रोणानि धावति विचर्षणिः विश्वाधामानि विष्टवित एष सुष्म्यदा आभ्यः सोमः स्य धारा अक्षरम् दृष्णः सुतस्यौजसा देवानुप्रभूषतः सप्तिम् नृजन्ति मेधसो गृहन्तः कारवो गिरा ज्योतिर्जज्ञानमुख्यम् सुषहासो मतारिते पुनानाय प्रभूवसो वर्धासमुद्रमुख्यम् विश्वावसो रक्षासु नो अनरुढस्वरात्समस्य कस्यचित् निदो यत्र मुमुच्महे एन्दोपार्थिवम् रयिन् दिव्यम् भव स्वया द्युमन्तम् शुष्ममाभर प्रधारा अस्य शुष्मिनो रथा पवित्रे अक्षरन् पुनानो भाचमिष्यति इन्दुर् यानः आ नः शुष्मम् दृशाह्यम् वीरवन्तम् पुरःस्पृहम् पवस्पसोमधारया प्रसोमो अतिधारया पवमानो अधिष्यदत अभिद्रोणान्यासतम् अप्सु त्वा मधुमत्तमम् हरिम् हिन्दम् च द्रिभिः इन्दमिन्द्राय वज्रिणे चारुम् श्रर्द्धायमत्सरम् प्रसोमा आस स्वाध्या अः पवमानासो अक्रमुः रयिम् गृह्ण्वन्ति चेतनम् दिवस्पृथिम् या अधिभवेन्दोद्युम्नवर्धनः भवाभाजानाम् पतेः तुभ्यम् वाता अभिप्रियस्तुभ्यमर्षन्ति सोमवर्धन्ति सो ते आप्यायस्व समे तु ते विश्वदस् सोमवृष्ण्यम् भवाजस्य सङ्गते तुभ्यङ्गावोघृतम् प्रयो बभ्रो दु दुःख्रे अक्षितम् वरिषिष्ठे अधिसानवे स्वायुधस्य ते सतो भुवनस्य पदे भयम् इन्दोऽसखित्तमुष्मसि प्रसोमा आदे इन्द्रिलस्य योषणोहरिम् हिन्वन्त्यद्रिभिः इन्दुमिन्द्राय पीतये आदे हंसो यथा आगणम् विश्वस्यापे वशन्मतिम् अत्योनगोऽभिरज्यते उभे सो ओ मा पचाकशृगो न तत्तो अर्षसि सीलन्द्रतस्य योनिमा अभिगावो अनोषतयोषा आजारमिव प्रियम् अस्मेदे देहिद्युमद्यशो मखवद्भ्यश्च मह्यम् च सरिम् मेधामुदश्रवाः प्रसोमा आसोऽपि पश्चितोपानयन्त्योर्मयाः वनानि महिषा इव अभिद्रोणानि बभ्रवः शुक्रागतस्य धारया वा रङ्गोमन्त्रमक्षरन् सुता इन्द्राय माजले वरुणाय मरुद्भ्याः सोमाः अर्हन्ति विष्णवे तिस्रो वाचपुजीरते कावो मिमन्ति धेनवाः हरिरेतिघनिक्रदत अभिब्रह्मेरनोषत जग्वीरतस्य मातराः मरुमृज्यन्ते एवशिशुम् राजः समुद्राम् चतुरोऽस्मभ्यम् सोमविश्वथाः आपवस्वसहस्रिणाः प्रसुमानो धारयातनेन्दुर्हिन्वानो अर्षति सुत इन्द्राय पाजवे वरुणाय मरुद्याः सोमो अर्षति विष्णवे वृषाणम् मृषभिर्यतम् सुन्वन्ति सोममद्रिभिः दुहन्ति शक्मनापयाः भुवत्त्रिरस्य मर्जो भुवनिन्द्राय मत्सरः संरूपै रज्यते हरीः अभिमृतस्य विष्टमन् दुहते पृष्टिमादरः चारु समे नमःता इमा गिरो अर्षन्ति सश्रुताः धेनोर्वाश्रो अवीवसत् आनः पवस्वधारया पवमानरजिम् पृथुम् यया ज्योतिरभिलासिनः इन्दो असमुद्रमीङ् खय पवस्व नायो धर्ता न ना ओजसा त्वया आ वीरेण वीरवोभिष्या आमपृतन्यतः अभिवार्यम् प्रवाचमिन्दुरिश्यतिशिषा आसं वाचसा ऋषेः पताभिदान आयुधा तङ्गेर्भिर्वाचमेङ् खयम् पुरानम् वा आसयामसि सोमञ्जनस्य गोपतिम् विश्वो यस्य ऊरते जनोऽधारधर्मणस्पतेः पुरानस्य प्रभो असोः असर्जिरथ्यो यथा पवित्रे ीन्यक्रमीत स वन्यसो मदाभिवस्पदे अभिकोशम् अनुश्च्युतम् स नो ज्योतिम् शिपूर्व्योमानविरोचय कृत्वे दक्षाय नो हि नो शुम्भमा नर्ताजुभिर्मृज्यमानो गमस्त्योः पवते वारे रं व्यये स विश्वा दासुषेव सुसोमो रिक्ष्या आदिवस्पृष्ठमः प्रयुर्गौ यजुः सो ओमरोहसि वीरयुः स वसस्पते स सुतः पीतदे वृषा सोमः पवित्रे ए अर्षति विघ्नम् रक्षांसि देवयोः स हरिरर्षति तर्णसिः अभियोनिक्रदत् स वाजीरो तत्रितस्याधिशा न विपवमानो अरोचयत् जामिभिः सूर्यम् सह सवृत्रहा वृषा आश्रुतो वरि सोमो वाजमिवासरत् स देवः कविने एषितो वि द्रोणानि धावति इन्दुरिन्द्राय ब्रह्मना एष उस्य वृषारथोऽ एतन्धृतस्य जोषणो हरिम् हिन्वन्त्यद्रिभिः इन्दुमिन्द्रा आय पीतये एतन्त्यम् हरितो दशमनुम्रज्यन्ते ए अपस्युमाः याभि आय एषस्य मानुषेष्वाश्ये नो न विक्षुसे एदति गच्छन्द्रारो एषस्य मज्जोरसोपष्टे दिवः शिशोः य एषस्य पीतये एतो हरिरर्षति धर्णसिः छन्दोनिमभिप्रियम् आशुरर्ष बृहन्मते परिप्रियेण धाम्ना यत्र देवा इति ब्रवन् परिष्कृन् विष्कृतम् जनाय यातयन् निशाः वृष्टिम् दिवः परिस्रव सुत एरिववित्र आत्रिषिन्दधा आ न ओजसा अयम् स यो दिवः परिरभुयामा आपवित्र आन्धो आप व्यक्षरत आविवा आसन् अथो अर्वावतः सुतः इन्द्रायसिच्यते वधो समीचीना अनूरत हरिम् हिन्वन्त्यद्रिभिः यो नामृतस्य सेदत पुराणो अक्रमेदभि विश्वामृतो वितर्षणिः शुम्भन्ति आयोनिमरुणोरुहद्गमदिन्द्रम् मृषाः सुतः ध्रुवे सदसि सेनते नो नो रयिम् महामिन्दोऽस्मभ्यम् सोम विश्वदाः आपवस्व सहस्रिणम् विश्वाः सोम पवमानद्युम्नानीन्दवाभर मिदाः सहस्रिणीरिषाः स स्तोत्रे सुवीर्यम् चरितुवर्धयागिराः पुना न इन्दवारसो मद्विबरहसंरयिम् ऋषन्निन्दो न उख्यम् प्रलेगा बोधूर्णयस्तेषा अयासो अक्रमो छन्दः कृष्णामपत्त्वजम् सुवितस्य मना महेति सेतुम् दुराव्यम् साह्वाम् सोदस्युमौरतम् शृण्डे वृष्टेरिवस्वनः पवमानस्य सुष्मिणाः चरन्ति विद्युतो दिमे आपवस्वमहेमि सङ्गोमतिम् दोहिरण्यवत् अश्वापद्वाजवत्सुतः सपवस्वभिचर्षण आमहीरोदसीवृण उषाः सोर्यो नरश्मिभेः परिणः शर्मयन्त्याधारया सोमविश्वताः सरा आरसेव विष्टपम् जनयन्द्रोचनादिवो जनयन्न शूर्यम् वसा रोगा अपो हरीः एष देवो देवेभ्यः परि धारया पवते सुतः मारुधानाय दूर्वये पवन्ते वाजसादये सोमासहस्रवाचसः दुहानः प्रत्नमित्रयः पवित्रे परिषिच्यते अभिविश्वा अनिवार्याभिदेवामृतावृथाः सोमः पुना नो अर्षदि गोमन्नः सोम वीरमदश्वा वद्वाजवत्सुतः परस्पर्हतीषाः यो अत्य इव मृज्यते योभिर्मदा आय हर्यतः तन्नो विश्वा अवस्युभो पूर्वथा इन्दुमिन्द्राय पीतये पुनो या हरि यतः सोमो गीर्भिः परिष्कृतः विप्रस्य मेऽध्यातिथेः पवमानविदारयिमस्मभ्यम् सोम सुश्रियम् इन्दो सहस्रवर्चसम् इन्दुरत्योरवाचसृत्कनिक्रन्ति पवित्रा यदक्षारति देवयोः पवस्व वाचसा तदे विप्रस्य गृणतो वृधे सोमरास्व सुवीर्यम् इति षष्ठाष्टकेष्टमोऽध्यायः